यश्च स द्विजमुख्येन राज्ञ शङ्खो निवेदितः प्रीत्या दत्तः कुणिन्देन धर्मराजाय धीमते तम् सर्वे भ्रातरो भ्रात्रे ददु शङ्खम् किरीटिने तम् प्रत्यगृह्णाद् बीभत्सु स्तोयजम् हेममालिनम् चितं निष्कसहस्रेण भ्राजमानम् स्वतेजसा रुचिरम् दर्शनीयम् च भूषितम् विश्वकर्मणा अधारयञ्च धर्मश्च तम् पुनः पुनःपुनः योन्नदाने नदति स ननादाधिकम् तदा प्रणादाद् भूमिपास्तस्य पेतुर्हीना स्वतेजसा धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोषमः सत्त्वस्थाः शौर्यसंपन्ना अन्योन्यप्रियकारिणः विसञ्ज्ञान् भूमिपान् दृष्ट्वा माञ्चते प्राहसंस्तदा ततः प्रहृष्टो बीभत्सु रददाद्धेमशृङ्गिणः शतान्यनडुहाम् पञ्च द्विजमुख्याय भारत सुमुखेन बलिर्मुख्य प्रेषितो जातशत्रवे कुणिन्देन हिरण्यम् च वासांसि विविधानि च काश्मीरराजो मार्द्वीकम् शुद्धम् च रसवम् मधु बलिम् च यवनाहयानुपादाय पर्वतीयान् मनोजवान् आसनानि महार्हाणि कम्बलांश्च महाधनान् नवान्विचित्रान् सूक्ष्मांश्च परार्घ्यान् सुप्रदर्शनान् अन्यच्च विविधम् रत्नम् द्वारितिष्ठन्ति वारिताः